अथ पंचश तत शूर्पणखावाक्यम तछ्रुमहर्षण सचिवानभ्यनुाकार्य बुद्ध् जगा तत्कारगम्यादुपलभ्य चोषाण्च गुणाचार्य बलाबल्य निश्चयत्मन स्थिरबुद्धिस्ततो रम्याम् यानशालाम् जगामः यानशालाम् ततो गत्वा प्रच्छन्नम् राक्षसाधिपः श्रूतम् सञ्चोदयामास रथः संयुज्यतामिति एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः रथम् संयोजयामास तस्याभिमतमुत्तमम् कामगम् रथमास्थाय काञ्चनम् रत्नभूषितम् पिशाचवदनैर्युक्तम् खरैः कनकभूषणैः मेघप्रतिमनादेन सतेन धनदानुजः राक्षसाधिपतिः श्रीमान्ययौ नद नदीपतिम् सश्वेतवालव्यजनश्वेतच्छत्रो दशाननः स्निग्धवैदूर्यसङ्काशस्तप्त ऋदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिरा कामगम् रथमास्थाय शुशुभे राक्षसाधिपः विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे सहस्रशः शीतमङ्गलतो याभिः ततः विशालैराश्रमपदैर्वेदिमद्भिरलङ्कृतम् कदल्यटपि संशोभम् नारिकेलोपशोभितम् सालैस्तालैस्तमालैश्च तरभिश्च सुपुष्पितैः अत्यन्तनियताहारैः शोभितम् परमर्षिभिः नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः आजैर्वैखानसैर्माशैर्बालखिल्यैर्मरीचिपैः दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् क्रीडारतभिधिज्ञाभिरप्सरोभिः सहस्रशः सेवितम् देवपत्नीभिः श्रीमतीभिरुपासितम् देवदानव सङ्घैश्च चरितम् त्वमृताशिभिः हंस क्रौञ्चप् प्लवाकीर्णम् सारसैः सम्प्रसादितम् वैदूर्यप्रस्तरम् स्निग्धम् सान्द्रम् सागरतेजसा पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च तूर्यगीताभिजुष्टानि विमानानि समन्ततः तपसाजितलोकानाम् कामघान्यभिसम्पतन् गन्धर्वाप्सरसश्चैव ददर्शधनदानुजः निर्यासरसमूलानाम् चन्दनानाम् सहस्रशः पश्यन वनान्य पश्यन् सौम्यानि घ्राणतृप्तिकराणि च अगुरूणाम् च मुख्यानाम् वनान्यपवनानि च तत्कोलानाम् च जात्यानाम् फलिनाम् च सुगन्धिनाम् पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः शैलान्यप्रवरांश्चैव प्रवालनि च यांस्तथा काञ्चनानि च शृङ्गाणि राजतानि तथैव च प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च हस्त्यश्वरथ नगराणि विलोकयन् तम् समम् सर्वतस्निग्धम् मृदु संस्पर्शमारुतम् तत्रापश्यत् स मेघाभ्यग्रोधम् मुनिभिर्वृतम् समन्ताद्यस्य ताः शाखाः शतयोजनमायताः यस्य हस्तिनमादाय महाकायम् च कच्छपम् भक्षार्थम् गरुडः शाखा माजगाम महाबलः भारेण पतगोत्तमः सुपर्णः पर्णबहुलाम् तत्र वैखानसामाशा वालखिल्यामरीचिपाः आजाबभूवृधूम्राश्च सङ्गताः परमर्षयः तेषाम् दयार्थम् भग्नामादाय वेगेन तौ चोभौ जगच्छपौ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् निषादविषयम् हत्वा शाखयापतगोत्तमः प्रहर्षमतुलम् लेभे मोक्षयित्वा महामुनीन् स तु तेन प्रहर्षेण द्विगुणीकृत विक्रमः अमृतानयनार्थं नयनार्थम् वै चकारमतिमान् मतिम् अयोजालानि निर्मथ्यभित्त्वा रत्नगृहम् वरम् महेन्द्रभवनाद्गुप्तमाजहारामृतम् ततः तम् महर्षिगणैर्जुष्टम् सुपर्णकृतलक्षणम् नाम्ना सुभद्रम् न्यग्रोधम् ददर्शधनदानुजः तम् परंपारं गत्वा परम् पारम् समुद्रस्य नदीपतेः ददर्शाश्रममेकाम् ते पुण्ये रम्येव नान्तरे तत्र कृष्णाजिनधरम् जटामण्डलधारिणम् ददर्श नियताहारम् मारीचम् नाम राक्षसम् मारीचेनार्चितो राजा सर्वकामैरमानुषैः तम् स्वयम् पूजयित्वा च भोजने नोदकेन च अर्थोपहितयावाच मारीचो वाक्यमब्रवीत् कच्चित्ते कुशलम् राजम् लङ्कायाम् राक्षसेश्वर केनार्थेन पुनस्तम् वैतूर्णमेव इहागतः एवमुक्तो महातेजा स रावणः ततः पश्चादिदम् वाक्यमब्रवीद्वाक्यकोविदः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चत्रिंशः सर्गः